अथनवतितमः सर्गः भरद्वाजाश्रमम् गत्वा क्रोशादेवनरषभः जनम् सर्वमवस्थाप्य जगामसः मन्त्रिभिः पद्भ्यामेव तु धर्मज्ञोऽन्यस्तशस्त्रपरिच्छदः वसानो वाससीक्षौ मे पुरोधाय पुरोहितम् ततः भरद्वाजस्य राघवः मंत्रिणस्ता नवस्थाप्य जगामा वसीष्ठम दृष्टव वा भरद्वाजो महात सचालासना पूर्ण शिष्यानर्घ्यमीति ब्रुवम्य वसीन भरतेनावा अबु्यत महातेज सुतरथ से ताभ्यामघ्य द्वा पश्चात् च आणुपूर्व्याच्च धर्मज्ञः पप्रच्छकुशलम् कुले अयोध्यायाम् बलेकोषे मित्रेष्वपि च मन्त्रिषु जानम् दशरथम् वृत्तम् न राजानमुदाहरत् वसिष्ठो भरतश्चैनम् पप्रच्छतुरणामयम् शरीरेऽग्निषु शिष्येषु वृक्षेषु मृगपक्षिषु तथेति तत्प्रतिज्ञाय भरद्वाजो महायशाः भरतम् प्रत्युवाचेदम् राघवः स्नेहबन्धनात् किमिहागमने कार्यम् तव राज्यम् प्रशासतः मे न शुध्यते मनः सुषुवेयममित्रघ्नम् कौसल्यानन्दवर्धनम् भ्रात्रा सहस भार्यो प्रव्राजितो वनम् नियुक्तस्त्रीनिमित्तेन पित्रा योऽसौ महायशाः वनवासी भवेतीह समाः किल चतुर्दशा कच्चिन्नतस्या पापस्य पापम् कर्तुमिहेच्छसि अकण्टकम् भोक्तुमनाराज्यम् तस्यानुजस्य च एवमुक्तो भरद्वाजम् भरतः प्रत्युवाचः पर्यशृणय नो दुःखाद्वाचा संसज्जमानया हतोऽस्मि यदि मामेवम् भगवानपि मन्यते मत्तो न दोषमाशङ्के मैवम् मामनुषादिः न चैतदिष्टम् माता मे यदवोचम् मदन्तरे नाहमेतेन तुष्टश्च न तद्वचनमाददे शंसमे भगवन् रामः क्व सम्प्रतिमहीपतिः वसिष्ठादिभिरत्वग्भियाचितो भगवांस्ततः उवाच तम् भरद्वाजः प्रसादाद्भरतम् वचः त्वय्येतत्पुरुषव्याघ्रयुक्तम् राघववंशजे गुरुवृत्तिर्दमश्चैव साधूनाम् चानुयायिता जाने चैतन्मनस्थम् ते अपृच्छन् त्वाम् तवात्यर्थम् समभिवर्धयन् जाने न रामम् धर्मज्ञम् ससीतम् सह लक्ष्मणम् भ्राता चित्रकूटे महागिरौ श्वस्तु कन्तासितम् देशम् वसाद्य सह मन्त्रिभिः एतम् मे कुरु सुप्राद्य ततस्तथेत्येवमुदार दर्शनः प्रतीतरूपो भरतो ब्रवीद्वचः चकार बुद्धिम् च तदा श्रमे तदा निशा निवासाय नराधिपात्मजः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवतितमः सर्गः